अहिरिवभोगैः घनं रक्षाप्राप्तिमन्त्रं केन् बि स्टाण्डर्ड् एनि any डे एनि टैम् वाक्यम् अहिरिवभोगैपर्येदिबाहुञ्ज्यायाहेद्यं परिबाधमानः हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमागुंसं परिपादु विश्वतः घनम् अहिरिवे हिरहिरिव भोगैर्भोगैरिव हिरहिरिव भोगैः इव भोगैर्भोगैरिवेव भोगैः परि परि भोगैरि वेव भोगैः परि भोगैः परिपरि भोगैर्भोगैः पर्येत्येदि परि भो गैर्भोगैः पर्येदि पर्येत्येदि परिपर्येदि बाहुं बाहुमेदि परिपर्येदि बाहुं येदि बाहुं बाहुमेत्येदि बाहुञ्जाया ज्याया BAHU ME TIEDE BAAHUN JAYA BAAHUN JAYA JAYA BAAHUM BAAHUN JAYA HE DIGUM HE DIN JAYA BAAHUM BAAHUN JAYA HE DIM ज्याया हे दि गं हे दिं ज्याया ज्याया हे दिं परिबाधमान परिबाधमानो हे दिं ज्याया ज्याय हे दिं परिबाधमानः हे दिं परिबाधमान परिबाधमानो हे दि हे दिं परिबाधमानः परिबाधमान इति परि बाधमानः हस्तघ्नो विश्वा विश्व हस्तघ्नो हस्तघ्नो विश्वावयुनानि वयुनानि विश्वहस्तघ्नो हस्तघ्नो विश्ववयुनानि हस्तघ्न इति हस्तघ्नः विश्वायुनानि वयुनानि विश्व विश्वा वयुनानि विद्वान् विद्वान् वयुनानि विश्वा विश्व वयुनानि विद्वान् वयुनानि विद्वान् विद्वान् विद्वान् पुमान् पुमान् विद्वान् वयुनानि वयुनानि विद्वान् पुमान् विद्वान् पुमान् पुमान् विद्वान् विद्वान् पुमान् पुमागुं सं पुमागुंसम् पुमान् विद्वान् विद्वान् पुमान् पुमागुंसम् पुमान् पुमागुंसं पुमागुंसम् पुमान् पुमान् पुमागुं सं परि परि पुमागुंसम् पुमान् पुमान् पुमागुं सं परि पुमागं सं परिपादु पादु परि परिपादु विश्वदो विश्वतस्पादुपरि परिपादु विश्वतः पादु विश्वतो विश्वतस्पादु पादो विश्वतः विश्वत इति विश्वतः